श्रीमद्भागवतं महापुराणं दशमस्कन्ध अथ चत्वारिंशोऽध्यायः अक्रूर्जीके द्वारा भगवान् श्रीकृष्णके स्तुति अक्रूरुवाच नतोऽस्म्यहं त्वाखिलहेतुहेतुं नारायणं पुरुशमात्मव्ययं यन्नाभिजातादरविन्दकोशान् ब्रह्माविरासीञ्जदयेशलोकः भूस्तोऽयमग्निपवनखमादिर्मन् जातिर्मन इन्द्रियाणि सर्वेन्द्रियार्था विबुधाश्च सर्वे ये हेतमस्ते जगतोऽङ्गभूताः नैते स्वरूपं कि दुरात्मनस्तेष जातियो नात्मतया गृहीताः अजोनुबद्ध सुगुणैर्जाया गुणात्परं वेद न ते स्वरूपम् त्वां योगिनो यजन्त्यद्धा महापुरुषमीश्वरं साध्यात्मं साधिभूतं च साधिदैवं च साधवः तया च विद्यया केचित् त्वां वै वैतानिका द्विजाः यजन्ते एके त्वाखिलकर्माणि शन्यस्योपशमं गताः ज्ञानिनो ज्ञानियज्ञेन यजन्ति ज्ञानविग्रहम् अन्ये च संस्कृतात्मानो विधिनाभिहितेन ते यजन्ति त्वान्मया स्वां वै बहुर्मूर्तेकमूर्तिकम् त्वामेवान्ये शिवोक्तेन मार्गेण शिवरूपिणं बह्वाचार्यभिभेदेन भगवन् समुपासते सर्व एव यजन्ति त्वां सर्वदेव महेश्वरम् येऽप्यन्यदेवता भक्ता यद्यप्यन्य धिय प्रभो यथा द्रीप्रभुवानद्य परिजन्या पूरिता प्रभो विशन्ति सर्वतसिन्धुं तद्वत्त्वां गतयोन्ततः सत्त्वं रजस्तम् इति भवतः प्रकृतिर्गुणाः तेषु हि प्राकृता प्रोता आब्रह्मस्थाबरादयः त्वभ्यं नमस्ते स्वविषक्तनिर्दिष्टये सर्वात्मने सर्वधियां च साकिणे गुणप्रवाहोऽयं विद्यया कृतः प्रवर्तते देवनिन्नितिरिजगात्मसो अग्निर्मुखं ते एव निरङ्घ्रीरीक्षणं सूर्यो न भोनाभिरथो दिश श्रुतिः द्यौकं सुरेन्द्रास्तव बाहुवोर्णवाह कुक्षिमरुत्प्राणबलं प्रकल्पितम् रोमाणि वृक्षोऽसधयशिरोरुरुहां मेघापरस्यार्थिन्दकालिते द्रयः निमेषणं रात्यहनि प्रजापति मेढ्वस्तमित्ते तव विर्यमिष्यते तय्यव्ययात्मन्पुरुषे प्रकल्पिता लौकाशपाला बहुजीवशङ्कुलाः यथा जले सञ्जिहते जलौकसोऽं व्युं दुम्बरे वामशुकामनोमये यानि यानि ह रूपाणि क्रीडनार्थं विभरसि तैरामिश्च शुशोलोका मुदा गायन्ति ते यशः नमः कारणमस्याय प्रलिं नमस्तुभ्यं मधुकैटभमृत्यवे नकूपाराय बृहृते नमो मन्दरधारिणे क्षित्युद्धारविहाराय नमः नमस्तेऽद्भुतसिंहाय साधुलोकभयापह वामनाय नमस्तुभ्यं क्रान्तत्रिभुनाय च नमो भृगुणां पते दिप्तच्छद्रवनच्छिदे नमस्ते रघुवर्याय रावणान्तकर्कराय च नमस्ते वासुदेवाय नमः नमस्त शङ्कर्षणाय च प्रद्युम्नाय निरुद्धाय सात्वितां पते नमः नमो बुद्धाय शुद्धाय दैत्यदानो मोहिने देक्षप्राय च तन्त्रे नमस्ते कल्किरूपणे भगवज्जीवलोकोऽयं मोहितस्तवमायाम् अहं ममेत्य सद्ग्राहो भ्राम्यते कर्मवस्मसु अहं चात्मात्मजागारदारार्थस्वजनादिषु भ्रमामि स्वप्नकल्पेषु मूढ विभो अनित्यानात्मदुःखे तु विपर्ये मति अहं द्वन्द्वारामस्तमोविष्टो न जाने त्वात्मन प्रियं यथा बुधो जलं हृत्वा प्रतिच्छन्नं तदुद्भवै अभ्येते मृगतिष्टां वै तद्वत्याहं पराङ्मुख नो सहेऽहं कृपणधी कामकर्म मनः रोद्धुं प्रमातभिश्चाक्षैः माणमितस्ततः सोऽहं तवाघृपदयो न्यसतां दुरापं यच्चाप्यहं भवदनुग्रहईशमन्यैः पुंसो भवेद्य संसरणलाभपर्वय्यब्जनाभसदुपासनयामति स्यात् नमो विज्ञानमात्राय सर्वप्रत्ययहेतवे पुरुषेष प्रधानाय पुरुषेशप्रधानाय ब्रह्मणेऽनन्दशक्ते नमस्ते वासुदेवाय सर्वभूतचयाय च शिश्रिकेश नमस्तुभ्यं प्रपन्नं पाहि मां प्रभो देश्रीमद्भागुते महापुराणे पारहंसां शयितायां दसंस्कन्दे पर्वार्धे क्रूरस्तुतिर्नाम चत्वारिंशोऽध्यायः